वल्कलाजिनसंवीतं पार्थं दृष्ट्वा जनास्तदा ऊचुर्बहुविधा वाचो भृशोपहत चेतसः जनावूचुः यं यान्तमनुयाति स्म चतुरङ्गबलं महत् तमेवं कृष्णया सार्धमनुयान्ति स्म पाण्डवाः चत्वारो भ्रातरश्चैव पुरोधाश्च विशां यानशक्या पुरा द्रष्टुं भूतैराकाशगैरपि तामद्य कृष्णां पश्यन्ति राजमार्गगता अंगरागोचितां अङ्गरागोचितां कृष्णां रक्तचन्दनसेविनीं वर्षमुष्णञ्च शीतञ्च नेश्यत्याशु विवर्णताम् अध्यनूनं नूनम् पृथा देवी सत्त्वमाविश्य भाषते पुत्रान् स्नुषाञ्च देवी तु द्रष्टुमद्याथनार्हति निर्गुणस्यापि पुत्रस्य कथम् स्याद् दुःखदर्शनम् किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् आनृशंस्यमनुक्रोशो धृतिः शीलम् दमः शमः पाण्डवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम् तस्मात् तस्योपघातेन प्रजाः परमपीडिताः औदकानीव सत्त्वानि ग्रीष्मे सलील संक्षयात सलिशया पीड़ित सर्व जगत्स्य जगत्पते मूल सेन वृक्ष पुष्पलोप मूलं ह्य मनुष्याण धर्मराजो महाद्युति पुष्पं फल शाखास्तरे ज ते भ्रातर इव क्षिप्रं सपुत्राः सह बान्धवाः गच्छन्तमनुगच्छामो येन गच्छति पाण्डवः उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च एकदुःखसुखाः पार्थमनुयाम सुधार्मिकम्